श्रीहरये नमः अथ दसमोऽध्यायः श्रीशुक उवाच अथ सिन्धुसौवीरपते रघुगणस्य व्रजतयिषु मत्यां तत्कुलपतिनासि भिकावाहम् पुरुषान्वेषणसमये दैवेनोपसाधितः सद्विजवरम् उपलब्ध एष पी वायुवां सः मनाङ्गो गोकरवत् धुरं वोढुम् अलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसपमददर्ह यथा हि द्विजवरस्येषु मात्रा वलोकानुगतेर्न समाहिता पुरुषगतिस्तथा विषमघता स्वसिभिकां रघुगणमुपधार्य पुरुषानदिवहत आहे ओढारसाध्वदिक्रमत विमिति विमुषमुह्यते यानमिति अथत ईश्वरवशोपालम्बम् उपाकर्ण्य मनसस्थं विज्ञापयाम्बभूवुः न वयं नरदेव प्रमत्ता भवन्नियमानुपथा सात्वे वहामः अयमधुनैव नियुक्तोऽपि न व्रजति नानेन सखवोटो मुहभयं पारयामयिति सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हति इति निश्चित्यनिशम्यकृपणवचो राजारहुगणमुपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषधुत्थितमन्युरविस्पृष्टब्रह्म तेजसं जादवेध समिव रजसा भृतमदिराह अहो कष्टं प्राधर्व्यक्तमुरुपरिश्रान्तो दीर्घमत्वानमेक एव ऊहि वान् सुचिरं नातिपीवान संहननाङ्गोजरसा च उपत्रुधो भवान् सखेनो ये वा परयेते सङ्घट्टिनयिते प्रहुविप्रलब्धोऽपि अविद्यया रचितद्रव्यगुणकर्माशय स्वचरमकलेवरे अवस्तुनी संस्थानविशेष अहं ममेत्यनध्यारोपितमित्या प्रत्ययो ब्रह्मभूतस्तूष्णीं दभिकां पूर्ववधुवाह विषमघतायां प्रकुपितबुवासरहु गणः किमिदमरे त्वं जीवन्मृतो मा गतर्ती कृत्य चिकित्सां दण्डपाणिरिव जनताय स्वाम्भजिष्यस इति एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डित मानिनं स भगवान् ब्रह्मणो ब्रह्मभूतः सर्वभूतः सुहृदात्मा योगेश्वरचर्यायां नादिव्युत्पन्नमतिं स्मयमानयिव विगतस्मय इदमाह ब्राह्मण उवाच त्वयोदितं व्यक्तमभिप्रलब्धम् भर्तुसमे स्यात्यधिवीरभारः कन्दोर्यति स्यादति गम्यमध्वा पीबेतिरासौ न विधां प्रवादः स्थौल्यं कार्श्यं व्याधय आदयश्च शुदृभयं कलिरि च निद्रारतिर्मन्युरहं मतशुचो देहेन जातस्य हिमेन सन्ति जीवन्मृतत्वं नियमेन दृष्टं स्वसाम्यभावो द्रुवयिट्य यत्र दर्ह्युच्यते बुद्धेर्विवरं मनाक्ष पश्याम यन्तव्यवहारतोऽन्य कईश्वरस्तत्र किवीसितव्यम् तथापि उन्मत्तमत्त जडवत् स्वसंस्थां अर्थ कियान् भवता शिक्षितेन सप्त भ्रमतस्य श्रीसुक उवाच एतावत्तनुवातपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतान् आत्म्यनिमित्तवुपभोगेन कर्मारब्धं व्यपनयन् राजयानपि ततो वाह स चापि पाण्डवयसिन्धुसौवीरपतिस्तत्त्वे जिज्ञासायां संय श्रद्धायादिकृताधिकारस्तत् हृदयग्रन्थिमोचनं द्विजव च आश्रित्य बहुयोग्रन्थसम्मतं त्वरयावरुह्य शिरसापादमूलमुपश्रुतः क्षमापयन् विगतनृप देवस्मय कस्त्वं निकूढश्चरसि द्विजानाम् विपर्षिसूत्रं कतमोऽवधूतः कस्यासि कुत्रत्ययि कापि कस्मात् क्षेमायनश्चेद्धसि नोत शुक्लः नाहं विशङ्के सुरराजवज्रात्ना त्रयक्षशूलान्नयमस्य दण्डात् नाज्ञर्घसोमानिलवित्तपास्त्राच् शङ्के पृशं ब्रह्मकुलावमानात् तद्ब्रूह्य सङ्घो जटवन्निघूट विज्ञानवीर्यो विचरस्य परः वचांसि योग्रथितानि सधो ननः क्षमन्ते मनसापि भेत्तुम् अहं च योगेश्वरमात्मतत्त्वं विधा मुनीनां परमं गुरुं वै प्रष्टुं प्रवृत्थ किमिकारणं तत्साक्षात् हरिज्ञानकलावतीर्णं स वै भवान् लोकनिरीक्षणार्थम् योगेश्वराणां गतिमन्दबुद्धिः कथं विचक्षीतगृहानुभन्ताः तृष्टश्रमः कर्मत आत्मनो वैभर्दुर्गन्तुर्भवतश्चानुमन्ये यथा सतो धानयनाद्यभावात् समूलयिष्ठो व्यवहारमार्गः स्थाल्यग्नितापात् पयसोभितापस्तत्तापतस्तण्ढुलघर्परं धेर्देहद्रियाश्वासय सास्ताभिगोप्ता नृपतिप्रजानां यः किङ्करो वैनपि नष्टिपिष्ठं स्वधर्मम् आराधनम् अच्युतस्य यदीह मानो विजहात्यघौखं तन्मे भवान्नरदेवाभिनमा देन तेन तुच्छीकृतसत्तमस्य ऋषीष्टमैत्रीतृशम् आर्त भन्तो यता तरे सधवत्यानमं ह विक्रिया विश्वसुहृतकस्य साम्येन वीता विमतोस्तवापि महत् विमानात् स्वकृदात् निभातृं नङ्क्षत्यदूरात् अपि चूलपाणिः इति श्रीमद्भागवते महापुराणे पञ्चमस्तन्ते दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमकराजिकी जय